वृष्णयो वा किरन्प्रीताः सङ्कर्षणजनार्दनौ स बालाः सह वृद्धाश्च स ज्ञातिकुलबान्धवाः उपोपविविविशुः प्रीता वृष्णयो मधुसूदनं पूज्यमानो महाबाहुः पौराणाम् प्रतिवर्धनः विवेशपुरुषव्याघ्रः स्ववेश्मधुसूदनः रुक्मिण्या सहितो देव्या प्रमुमोदसुखी सुखम् अनन्तरं च सत्याया जाम्बवत्याश्च भारत सर्वासाञ्च सर्वकालविहारवान् जगामचहृषीकेशो रुक्मिण्याः स्वं निवेशनं एष तातमहाबाहो विजयः शार्ङ्गधन्वनः एतदर्थं च जन्माहुर्मानुषेषु महात्मनः भीष्म उवाच द्वारकायाम् ततः कृष्णः स्वदारेशु दिवानिशं सुखं लब्ध्वा महाराज प्रमुमोदमहायशाः पौत्रस्य कारणाच्चक्रे विबुधानां हितं तदा स वासवैः सुरैः भरतर्षभ बानो नामा भवद राजा बाोना बलिर्ज्येष्ठसु तो बली भरत बाहु सहुसहस्रवा